मामिषं विग्रहं कृत्वा साक्षादमरवर्णिनि नी, नीलोत्पलसमोगन्धो यस्याः क्रोशात्प्रधावति या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि देवदानवयक्षाणामीप्सितां देवरूपिणीं तां चापि जातां सुश्रोणीं वागुवाचा शरीरिणी सर्वयोषिद्वरा कृष्णानिनी शुक्षक्रियाङ्क्षयं सुरकार्यं यं काले करिष्यति सुमध्यमा अस्याहेतोः कौरवाणां महदुत्पत्स्यते भयं तत् श्रुत्वा न चैतान् हर्ष सम्पूर्णा नियं तौ दृष्ट्वा पाशती याजं प्रपे देवै सुतार्थिनी न जननी जानी यातामिमाविति तथेत्युवाच तं याजो राज्ञः प्रियचिकीर्षया तयोश्च नामनीचकृद्विजाः सम्पूर्णमानसाः धृष्टत्वादत्यमश्रित्वाद्युम्नाद्युत्सम्भवादपि धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति कृष्णेत्यैवाब्रुवन् कृष्णान् कृष्णा भूत्साहि तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे धृष्टद्युम्नम् तु पाञ्चाल्यमानीयस्वन्निवेशनम् उपाकरोदस्रहेतोर्भारद्वाजः प्रतापवान् अमोक्षणीयं दैवं हि भावि मत्वा महामतिः तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ब्राह्मण उवाच श्रुत्वा जगृहे ब्राह्मणाः स पाञ्चालराजं द्रुपदमिदं वचनमब्रुवन् धातृराष्ट्राः सहामात्या मन्त्रयित्वा परस्परम् पाण्डवानां विनाशाय मतिं चक्रुः दुर्योधनेन प्रहितः पुरोचन इति श्रुतः वारणावतमासाद्य कृत्वा जतुगृहं महत तस्मिन् गृहे सुविश्वस्तान् पाण्डवान् पृथया अधरात्रे महाराज महाराजदग्धवान्सपुरोचनः अग्निना तु स्वयमपि दग्धक्षुद्रो नुसंकृत एतच्छ्रुत्वा सुसंहृष्टो धृतराष्ट्रस्सबान्धवः श्रुत्वा तु पाण्डवान् दग्धान् धृतराष्ट्रोऽविकासुतः एतावदुक्त्वा करुणं धृतराष्ट्रस्कुमारिचः अल्पशोकः प्रहृष्टात्मा शशासविदुरं तदा पाण्डवानां महाप्राज्ञ कुरुपिण्डोदकक्रियां अद्य पाण्डुर्हतः पाण्डवानां विनाशने तस्माद् भागीरथीं गत्वा कुरु पिण्डोदकक्रियाम् अहो विधिवशादेवागतास्तेयमसाधनम् इत्युक्त्वा प्रारुदत्तत्र धृतराष्ट्रः ससौबलः श्रुत्वा भीष्मेण विधिवत् कृतवानोध्वदेहिकं पाण्डवानां विनाशाय कृतं कर्म एतत्कार्यस्य कर्ता न दृष्टो न श्रुतः पुरा एतद्वृत्तं महाराज पाण्डवान् प्रति तु वचनं तेषां यज्ञसेनो महामतिः यथा तज्जनकः शोचे विनाशने तथा तप्यत पांचालह पांडवाना विनाशने सहूय प्रकृत सहिता सह बांधवै पांचालह चेदम वचस्तदा